हरि ओम् अथ श्रीमद्देवीराणे श्रीमद्गवतमहात्मे देव, द्वितीयोऽध्यायः प्रशयेवोचो वसुदेवो महाभागकथम् पुत्रम् अवाप्तवान् प्रसेन कुत्र कृष्णेन भ्रमतान्वेषितकथम् विजेनाकेन कर्मा च देवीभागवतम् श्रुतम् वसुदेवेन सुमतेवद एवदूत्र गथामि सूतवाचे सूत उवाच सत्राजिद्भोजवंशीयो द्वारभत्याम् सुखम् वसन् सूर्यस्याराधने युक्तो भक्तश्च परमस्तखा अथ कालेन केता प्रसन्न सविता भवेत् स्वलोकम् दर्शयामास तद्भक्त्या प्रणयेन च तस्मै प्रीतश्च भगवान् च मन्तः कर्मणिम् ददौ स तम् बिभ्रन्मणिम् कण्ठे द्वारकामाजगामः दृष्ट्वा तम् तेजसा भ्रांता मत्वा कृष्णम् ऊचु समभ्ये च सुधर्मायामवस्थितम् एषा याति सविता दिजुक्षुस्ताम् जगत्पते श्रुत्वा कृष्ण तु तद्वाचम् सविता नैष भो बाला सत्राजिन्मणिना ज्वलन् शमन्तकेन चायासि भासवद्दत्तेन भास्वता अथ विप्रां समाहूय स्वस्ति वाचनपूर्वकम् प्रावेशयत् समभ्यस्य सद्राज्ये स्वगृहे मणिन् न तत्र मारी दुर्भिक्षं नोपसर्गभयं कुचेत् यत्राशेषत्यं पच्च भार सुवर्णदः अथ सत्रादितो भ्रातापसेन्द्रो नाम करिः चेत् कण्ठे भज्वामणिम् दत्तद्यो हयमारुह्य सैन्धवम् मृगयाथम् यात तम् मद्राक्षीन्दृगादिप प्रसेन सह यं हत्वा सिंहो अत्वा च तं बिलद्वारि मणिं जग्राहवीर्यवान् स तं मणिं सोऽस्वपुत्राय क्रीडनार्थं मदात् प्रभु अथ चिक्रीडबालोऽपि संप्राप्य भास्वरं। भास्वरम् प्रसेलेनागते चाथ तत्र जित्पर्य न जाने केन नियत प्रसे नो मणिमिच्छता अथ लोक मुहोगीणा किं वदन्ति पुरे भवेत् कृष्णेन नियतो नूनं प्रसेनो मणिलिप्सुना सन्तुश्राव कृष्णोऽपि दुर्यशो लिप्तमात्मने माष्टुं तत्तस्य पदवीं पुरो कोभिः सहागमय गत्वा सु विपिने पश्यत् प्रसेन ययो मृगेन्द्रम् मन्विष्यन् मृसृग् बिन्दु अथ कृष्णो हतं सिंहम् बिलद्वारि विलोक्यसे उवाच भगवान् वाच्यं कृपया पुरवासिनः तिष्ठध्वं मत्रेव याव नमः प्रविशामि बिलं ते तन्मणि कलब्धये तथेत्युक्ता तु ते तस्तु तत्रैव द्वारकौकसः जगामान्तर्बिलं कृष्णो यजाम् भवतो गृहम् वृक्षराजसु तं दृष्ट्वा कृष्णो मरणे धरम् तदा हर्तुम् ऐच्छन् मणिम् तावद्धात्री शुक्रोश श्रुत्वा धात्रीरवम् सद्य समागत्य वृक्षरात्र युधे स्वामिना साकम् अविश्रमम् अहर्निशम् एवम् त्रिनवरात्रम् तु महद्युद्धम् अभूत्तयो कृष्णागमम् प्रदीक्षन्तस्त द्वारि पुरोकसः सत्रते वृत्तां द्वादीज्मय सत्र कथयामासु वृत्ता सत्रजित चे शोकाकुलाजुदेव महाभाग्युता पुत्रस्था ममोह सीवार चिंतयामास बहुधा कथम श्रेय भवन्म अथाजगाम भगवान् देवर्षी ब्रह्मलोकतः उत्थाय तम् प्रणम्यासो वसुदेवोऽभ्यपूजयत् नार्दो नामयम् पृष्टा वसुदेवं महामतिम् पप्रच्छ च यदु श्रेष्ठम् किम् चिन्तयसि तद्वद वसुदेव उवाच पुत्रो मेति प्रियकृष्ण पौरैः साकम् मरम् गत्वा नियतम् तम् तम तदैक्षत रसेन घातकम् दृष्ट्वा बिलद्वारे मृतम् हरिम् द्वारि पौरानधिष्ठाप्य बिलान्तर्गतवान् स्वयम् बहवो दिवसायता नायत्यद्यापि मे सुतः अतः शोचामि तद्ब्रूहि येन लप्स्ये सुतम् मुरे नारदौ उवाच पुत्रप्राप्यै दोश्रेश्च तस्याराधनेनैव सद्य श्रेयो हि वाप्स्यति वसुदेव भगवन् का हिता देवी किम् प्रभावा महेश्वरी कथमाराधनम् तस्या देवस्य कृपया वद नारद उवाच वसुदेव महाभागशृणु संक्षेपतो मम देव्या महात्म्यमतुलम् को वक्तुम् यासा देवी या सा भगवती नित्या सुच्चिदानन्दरूपिणी परात्मतरा देवीय व्याप्तमिदम् जगत् यत् आराधनतो ब्रह्म सृजतीदं चराचरम् यां च स्तुत्वा विनिर्मुक्तो मधुकै च भयाद्भयात् विष्णुर्यत्कृपया विश्वम् विभक्ति भगवानिदम् रुद्रस्सं यस्या कृपा प्राङ्गनिरीक्षणात् संसारबन्धहेतुर्या सैव मुक्तिप्रदायिनी सा विद्या परमादेवी सैव सर्वरेश्वरी नवरात्रैविधानेन सम्पूज्य जगदम्बिकाम् नवाहोभि पुराणं च देव्या भागवतम् शृणु यस्य श्रवेण मात्रेण सद्यपुत्रम् अवाप्सति मुक्तिर्मुक्तिर् दूरस्थापटाम् शृणोताम् इत्युक्तो नार्देनासो वसुदेव प्रणम्यतम् उवाच पर्या प्रीत्यानार्दम् निसत्तमम् वसुदेव उवाच भगवन्तव वाक्येन संस्मृतम् वृत्तमात्मनः श्रुणेताम् तच्च वक्ष्यामि देवी माहात्म्यसम्भवम् पुराणभोगिनः कंसु देवक्यश्च मगर्भत ज्ञात्वात्मृत्युम् पापो मां स भार्यम् न्यरुण कारागारेयमवसम् देवक्या सह भार्यया जातं दातम् समवधीत् पुत्रम् कंसोऽपि पापकृत् षट् पुत्रा निहतास्ते न तदा शोकाकुला वृषम् अतप्यज्देवकी देवी नक्तमनिन्दिता तदाहं गर्गमाहूय मुनिं नत्वा विपूज्य च देवके दुःखम् अवोचं पुत्रकाम्यया भगवन् करुणासिन्धो यादवानां गुरुर्भवाम् आयुष्मत्पुत्रसम्प्राप्तिसाधनं वद मे मुने ततो गर्गप्रसन्नात्माम्बुवाच दयानिधि गर्ग उवाच वसुधेव महाभाग शृणुत साधनम् परम् या सा भगवती दुर्गा भक्तदुर्गतिहारिणी तम् आराधय कल्याणीम् सद्य श्रेयो ह्य वाप्स्य यद्वाराधनतः सर्वे सर्वान् कामान् अवाप्नुयुः न किञ्चित् दुर्लभम् लोके दुर्गाचनवताम् नृणाम् इत्युक्तोऽहम् धायुक्ते स भार्यो मुनिपुङ्गवम् प्रणम्य परिया भक्त्या प्रावो इति विहिताञ्जलिः वसुदेव उवाच यदस्ति भगवन् प्रीतिमयि ते करुणानिधे तदा गुरो मदर्थे त्वं समाराधय चन्दिकाम् निरुद्धय कंस गेहेऽहं न किञ्चित् कर्तुमुत्सहे अत त्वमेव मामुद्धर मामते इत्युक्तःस्तु मया परिप्रीतः प्रोवाच मुनिपुङ्गवः वसुदेव तव प्रीत्या करिष्यामि तन्तव अथ गर्गमुनिप्रीत्या मया आरिराधै शूर्दुर्गाम् विन्द्याद्रिम् ब्राह्मणैः सह तत्र गत्वा च गन्धात्रिम् भक्ताभीष्टपदायिनीम् आराधयामासमुनि परायणः ततः समाप्ते नियमे वा उवाचा अशरीरिणि प्रसन्नाहं मे कार्यसिद्धि भविष्यति भूभारहरणार्थाय मया सम्प्रेरितो हरि वसुदेवश्च देवक्यां संशयनावतरिष्यति कंसभीत्यात्मादाय बालमानक प्रापयिष्यति सद्य तु गोकुले नन्दवेश्मने यशोदातनीया नीत्वा स्वगृहे कंसभुभुजे दास्यत्यथ चन्तां हन्तुम् कंसक्षे दीक्षिप्तौ स तद्धस्ताद्विनिर्गत्य सद्यो दिव्य वपुर्धरा दंश भूता विन्ध्याद्रौ इति तद्वचनम् श्रुत्वा प्रणम्य जगदम्बिकाम् गर्गोमुनि प्रसन्नात्म मथुराम् वरदान दिव्याया गुर्गाचार्य मुखाग्वास भार्य संप्रीत परदारभ्य परम जाने देंी महात्मोत्तम अधुनाशे शबुजा अतो भागवतम देव्याम शय प्रभो मद्भाग्या देवर्षे संप्रप से वसुदेव वच श्रुत्वा नारद प्रीतमानतः सुदीने शुभनक्षत्रे कथारम्भम् अथाकरोत् कथाविघ्नविघातार्थम् द्वियाजेपुर्नवाक्षरम् मार्कण्डेयपुराणोक्तम् पेठुर्देव्यास्तवम् तथा प्रथमस्कन्धमारभ्य श्रीनारद मुखोद्गतम् शुश्रव वसुदेवश्च भक्त्या भागवतामृतम् नवमेन्हीं कथापूर्त पुस्तक वाचकं तथा प्रसन्न पूजया मस वसुदेव महाम अथ तत्र सैसे कृष्ण जांबवत मृधे कृष्ण मुष्टि विष्पा ऋष्ठांगो जानू अथगत स्मृति सोपी भगवन्तं प्रणम्य उवाच परिया भक्तियापराधम क्षमा स्यातोऽसि रघुवर्यस्त्वं यद्रोषाचरिताम् पतिः क्षोभं जगामलङ्काञ्च रावण सानुगोहतः ते भगवान भगवान् कृष्ण मद्धोराज्ञं शमस्वभव ब्रूही यत्करणीयं मे भृत्योऽहं तव सर्वथा श्रुत्वा जाम्बवथो वाचम् अब्रवी जगदीशरः मणिहेतो ह्य प्राप्ता वयं वृक्ष पतेलम् वृक्षराज तदप्रीत्या कन्याम् जाम् भवतीम् निजाम् ददौ कृष्णाय सम्पूज्य श्रीमन्तकर्मणिम् तथा स साम् पत्नीम् समादाय मणिम् कण्ठे तदादधत् अभिमन्त्र्य प्रतस्थे द्वारकाम् प्रति कथासमाप्ति दिवसे वसुदेव उदारधी ब्राह्मणान् भोजयाम स आशीर्वाचं प्रयुञ्जानात् विजार्यत्समये हरिः आजिगाम्यक्षणे तस्मिन् पत्न्या सह मणिम् दधत् भाग्यया सहितम् कृष्णम् वसुदेव पुरोगमः दृष्ट्वा हर्षासु पूर्णाक्षा समवापु परामृदम् देवर्षीनार्दश्चार्थे कृष्णागमन हर्षितः आमन्त्रे वसुदेवं च कृष्णम् ब्रह्मसभान्ययौ हरिचरितमिदं यत् चिति तन् पठति विमलभक्त्या शुद्धचित्तः शृणोति स भवति सुखपूर्ण सर्वदा सिद्धकामो जगति च वपुषोऽन्ते मुक्तिमार्गं लभे च अथ श्रीस्कन्दपुरा पुराणे मानसखण्डे श्री वसुदेवस्य देवी भागवत नवाहचर्वणात् पुत्रप्राप्तिवर्णनम् नाम द्वितीयोऽध्यायः श्रीदेव्यार्पणमस्तु